अथ श्रीमहाभारते आदिपर्वणि पञ्चाशत्तमोऽध्यायः मन्त्रिण ऊचुः ततः स राजा राजेन्द्रस्कन्धे तस्य भुजङ्गमम् मुने चुच्चाम आसज्य स्वपुरम् पुनराययौ वृषेस्तस्य तु महायशाः शृङ्गी नाम महातेजास्तिग्मवीर्योतिकोपनः ब्रह्माणम् समुपागम्य मुनिः पूजाम् चकारः सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्रावतम् तदा सख्युः सकाशात् पितरम् पित्रा पुरा मृतम् सर्पं समासक्तं स्थाणुभूतस्य तस्य वहन्तम् राजशार्दूलस्कन्धेनानपकारिणम् तपस्विनमतीवाथ तं मुनिप्रवरं नृप जितेन्द्रियं विशुद्धञ्च स्थितं कर्मण्यथाद्भुतं तपसाद्योतितात्मानं स्वेष्वङ्गेषु यतं तदा शुभाचारं शुभकथं सुस्थितं तमलोलुपं, अक्षुद्रमनसूयञ्च वृद्धं मौनव्रते शरण्यं सर्वभूतानां पित्रा तव शशापाथमहातेजाः पितरम् ते, ते रुषान्वितः ऋषेः पुत्रो महातेजा बालोऽपि स्तविरद्युतिः स क्षिप्रमुदकम् स्पृष्ट्वा रोषादिदमुवाचः पितरम् तेऽभिसन्धाय तेजसा प्रज्वलन्निव अनागसि गुरव्यो आशीविषस्तिग्मतेजामद्वाक्यबलचोदितः सप्त रात्रादितः सप्तरात्रादितः पापं मे तपसो बलम् इत्युक्त्वा प्रययौ तत्र पिता यत्रास्यसोऽभवत् दृष्ट्वा च पितरम् तस्मै तम् प्रत्यवेदयत सचापि चापि मुनिशार्दूलः प्रेषयामास ते पितुः शिष्यम् गौरमुखम् नाम आचख्यौ स च विश्रान्तो राज्ञः सर्वमशेषतः शप्तोऽसि मम पुत्रेण यत्तो भवमहीपते तक्षकस्त्वाम् महाराज तेजसा सौ दहिष्यति श्रुत्वा च तद्वचो घोरम् पिता मे जनमेजय यत्तो भवत्परित्रस्तक्षकात्पन्नगोत्तमात् ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते राज्ञः समीपम् ब्रह्मर्षिः काश्यपो गन्तुमैच्छत तम् ददर्शाथनागेन्द्रस्तक्षकः काश्यपम् तदा तमब्रवीत्पन्नगेन्द्रः काश्यपम् त्वरितम् द्विजम् क्व भवाम् याति किञ्च कार्यम् काश्यप उवाच यत्र राजा कुरु श्रेष्ठपरिक्षिन्नाम वै द्विज तक्षकेण भुजङ्ग्येन दक्ष्यते किल सोऽद्य वै गच्छाम्यहम् तम् त्वरितः सद्यः कर्तुमपज्वरम् मयाभिपन्नम् तम् चापि न सर्पो धर्शयिष्यति तक्षक उवाच किमर्थम् तम् मया दष्टम् सञ्जीवयितुमिच्छसि अहं स तक्षको ब्रह्मन् पश्य मे वीर्यमद्भुतम् न शक्तस्त्वम् मया दष्टम् तम् सञ्जीवयितुम् नृपम् इत्युक्त्वा तक्षकस्तत्र सो दशद्वैवनस्पतिम् सदष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः काश्यपश्च ततो राजान्न जीवय तम् नगम् ततस्तं लोभयामास कामम् ब्रूहीति तक्षकः स एवमुक्तस्तं प्राह काश्यपस्तक्षकम् पुनः धनलिप्सुरहं तत्रा यामीत्युक्तश्च तेन सह तमुवाचमहात्मानं तक्षकः श्लक्ष्णया गिरा यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकं गृहाणमत्त एव सन्निवर्तस्व चानघ